ब्रह्ममुरारिसुराचितलिङ्गं निर्मलभाषितशोभितलिङ्गं जन्मजदुःखविनाशकलिङ्गं तत्प्रणमामि सदाशिवलिङ्गं देवमुनिप्रवराजितलिङ्गं शिवलिङ्गम् सर्वसुगन्धि पितलिङ्ग शितलिङ्गं वणिपतिवेष्टितशोभितलिङ्गं दक्ष सुयज्ञविनाशनलिङ्गं तत्प्रणमाभि सदा चन्दनलेतलिङ्ग पङ्कजहार सुशोभितलिङ्गित पापविनाशनलिङ्गं तत्प्रणमामि सदाशिवलिङ्गं देवगणार्जितसेवितलिङ्गभक्तिभि वेष्टितलिङ्गं सर्वसमुद्भवकारणलिङ्गम् अष्टदरिद्रविनाशनलिङ्गम् तत्प्रणमामि सदा शिवलिङ्गं सुरगुरु सुरवरपूजितलिङ्गं सुरवणपुष्प सदाचितलिङ्गं परा stakta midam